त्रिपञ्चाशत्तमोऽध्यायः शौनकौ उवाच सर्पसत्रे तदाराज्ञः पाण्डवे यस्य धीमतः जनमे जयस्य के त्वा सन् के सदस्या बभूवश्च सर्पसत्रे सुदारुणे विषाद जननेत्यर्थम् पन्नगानाम् महाभये सर्वं विस्तर भवान् छंसितुमर्हति सर्प सत्र विधान ज्ञ विज्ञेयः हन्तते ते कथयिष्यामि नामानीह मनीषिणाम् ये ऋत्विजः सदस्याश्च तस्याः सन्नृपतेस्तदा तत्र होता बभू वाथ ब्राह्मणश्चण्ड जातो वेद विदाम्बरः उद्गाता ब्राह्मणो वृद्धो विद्वान् कौत्सोऽथ जैमिनि ब्रह्मा भवच्छार्गर असितो देवलश्चैव नारदः पर्वतस्तथा आत्रेयः कुण्ड जठरौ द्वियः काल घटस्तथा वात्स्यश्रुत श्रवा वृद्धो जपा स्वाध्याय कोहलो देवशर्मा समसौरभ एते चान्ये च बहवो वसामेदोवः वहः कुल्या नागानाम् सम्प्रवर्तिताः ववौ गन्धश्च तु मुलो दह्यताम् अनिशम् तदा पतताम् चैव नागानाम् धिष्ठितानाम् तथाम्बरे अश्रूयतानिशम् शब्दः पच्यताम् चाग्निना भृशम् तक्षकस्तु स नागेन्द्रः पुरन्दर निवेशनम् गतश्रुत्वैव राजानम् तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक भयम् नागेन्द्र तस्माद्वै सर्पसत्रात् कदाचन प्रसादितो मया पूर्वं तवार्धाय पितामः तस्मात् तव भयम् नास्ति व्येतु ते मनसोज्ज्वरः सौतिर्वाच एवमाश्वासितस्तेन ततः स भुजगोत्तमः उवास भवने तस्मिंश्चक्रस्य मुदितः सुखी अजस्रम् निपतस्त्वग्नौ नागेषु भृश पर्यतप्यत कश्मलञ्चाविशद् घोरम् वा सु किम् पन्नगोत्तमम् स घूर्णमानः हृदयो भगिनीमिदमब्रवीत् दह्यन्त्यङ्गानि मे भद्रे नदिशः प्रतिभान्ति च सीदामीव च सम्मोहाद्घूर्णतीव च मे मनः दृष्टिर्भ्राम्यति अयम् स कालः सम्प्राप्तो जरत्कारो मया दत्तात्राय स्वास्मान् स बान्धवान् भुजगोत्तमे प्रतिषेत्स्यति पूर्वं पूर्वम् स्वयमाह पितामह तद्वत्से ब्रूहि वत्सम् कुमारम् वृद्धसम्मतम् ममाद्यत्वम् सभृत्यस्य इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पसत्रे वा सुकिवाक्ये